श्रीमद्भागवत् महापुराणं द्वादशस्कन्ध अथाष्टमोऽध्यायः मार्कण्डेजी की तपस्या और्वरप्राप्ति शौनकुवाच सूतजीवचिरं साधो वदनो वदतां वरं तमस्य भ्रमतां नृणां त्वं पारदर्शनः आहुश्चिरायुषं मृशिं जनाः यकल्पान्ते उर्वरितो येन ग्रस्तमिदं जगन् स वा अस्मद्गुरोत्पन्नकल्पेऽस्मिन् भार्गवर्षभ नैवाधुनापि भूतानां सम्प्लव कोऽपि जायते एक एवार्णवे भ्राम्यन्ददर्श पुरुषं वटपत्रपुटेतोकं शयानं तेकमद्भुतम् एष न संशयो यतह। यतः महायोगिन् नच्छिन्धि महायोगिन्पुराणेष्वपि सम्मतः श्रोतुवाच प्रश्नस्त्वया महर्षेयं कृतो लोकभ्रमापह नारायणकथा यत्र गीता कलिमलापः प्राप्तजतिसंस्कारो मार्कण्डेयपितु क्रमात् छन्दां सधित्यधर्मेण तपस्वाध्यायसंयुतः बृहद्वद्धर शान्तो जटिलो वल्कलाम्बरः बिभ्रत्कमण्डलुं दण्डम् उपवीतं समेखलम् कृष्णार्जिनं साक्षसत्रं कृशांश्च निमर्धये अग्न्यर्कगुरुविप्रात्मस्वर्चयन् सन्ध्ययो हरिं सायं प्रात स गुर्वे भक्षमाश्रित्य भाग्यतः भुभुजे गुरुवनुज्ञात शकन्नो चेदुपोषितः एवं तपस्वाध्यायपरो वर्षाणाम् अयुतायुतम् आराधयन् ऋषिकेशं जिज्ञे मृत्युं सुदुर्जयम् ब्रह्माभिगुर्भवो दक्षो ब्रह्मपुत्रास्य ये परे दि देवापितृभूतानि तेनाशन्नति विस्मिताः इत्थम् बृहद्व्रतधरं तपस्वाध्यायसंयमै दध्यावधोक्षजं योगी ध्वः सक्लेशान्तरात्मना तस्यैवं युञ्जतश्चित्तम् महायोगेन योगिनः व्यतीजाय महान् कालो मन्वन्तरषडात्मकः एतत्पुरन्दरो ज्ञात्वा सप्तमेऽस्मिन् किरान्तरे तपोविंशङ्कितो ब्रह्मन्नारेभेतद्विघातनं गन्धर्वाप्सरसकामं वसन्तमलयानिलौ मुनिये प्रेषयामास रजस्तुकमदौ तथा देवैतदाश्रमं जग्मुर्हिमार्द्रे पार्श्वोत्तरे पुष्पभद्रानदी यत्र चित्राख्या शिलाविभो तदाश्रमपदं पुण्यं पुण्यद्रुमलं ताञ्चितं पुण्यद्विजकुलाकिरणं पुण्यं मत्तभ्रमरसङ्गीतं मत्तकोकिलकूजितं मत्तबर्हि नटाटोपं मत्त्व द्विजुकुलाकुलम् वायुप्रविष्ट आदाय हिमनिर्झरषीकरान् सुमनोभि परिष्वङ्क्तो बबाबूतं भयं स्मरम् उद्यच्चन्द्रनिशावक्त्र प्रवालस्तवकालिभिः गोपद्रुमलताजाले तद्रासे कुसुमाकरः अन्वीयमानो गन्धर्वै गीतवादे त्रयूथकैः अधिश्यतात् चापेषु स्वस्त्रीयूथपति स्मरः हुत्वाग्निं समुपासीनं ददिषु शक्रकिङ्कराः मेलिताच्छं दुराधरसं न नितो तस्य पुरतः गायका जगुः मृदङ्गवीणाप्रणवैर्वाद्यं चक्रुर्मनोरमं सन्दधेस्रं श्वधनुषी कामः पञ्चमुखं तदां मधुर्मनोरजस्तोक इन्द्रभृत्याव्यकम्पयन् mm.